मार्कण्डेयपुराणम् अध्यायं 98 एय्ट् वंशानुकीर्तनवर्णनं क्रौस्तुगिरुवाच भगवन्कथिता सम्यक् त्वया मन्वन्तरस्थितिः क्रमाद्विस्तरतस्त्वत्तो मया चैवावधारिता ब्रह्माद्यमखिलं वंशं भूभुजां द्विजतम श्रोतुं ममेच्छदः सम्यक् भगवन्प्रब्रवीहि मे मार्कण्डेय उवाच शृणुवत्सनृपाणां त्वमशेषाणां समुद्भवं चरितं च जगन्मूलमादौ कृत्वा प्रजापतिम् अयं शिवं शोभूपालैरनेकक्रतुकर्तृभिः सङ्ग्रामजिद्भिर्धर्मज्ञैः शतसङ्ख्यैरलङ्कृतः श्रुत्वा चैषां नरेन्द्राणां चरितानिमहात्मनाम् उत्पत्तयश्च पुरुषः सर्वपापैः मनुर्यत्र तथेक्ष्वागुरनरण्यो भगीरथः अन्ये च सदशो भूपात् सम्यक् पालितभूमयः धर्मज्ञायज्विनः शूराः परमार्थार्थवेदिनः श्रुते तस्मिन् पुमान्वंशे तदयं श्रूयतां वंशो यदो वंशासहस्रशः विद्यन्ते मनुजेन्द्राणामवरोह यथा वटात् ब्रह्मा प्रजापदिः पूर्वं शुसृक्षुर्विविधाः प्रजाः अङ्गुष्ठा दक्षिणाद् वामाङ्गुष्ठा च तत्पत्नीं जगत्सूधिकरो विभुः ससर्ज भगवान् ब्रह्मा जगतां कारणं परम् अदितिस्तस्य दक्षस्य कन्या जायदशोभना तस्यां च कश्यवो देवं मार्दण्डं समजीजनद ब्रह्मास्वरूपं जगदामशेषाणां वरप्रदम् आदिमध्यान्धभूतं च सर्गस्थित्यन्धकर्मसु यदोखिलमिदं यस्मिन्नशेषं च स्थितान्द्विजा यत्स्वरूपं जगच्चेदं सदेवासुरमानुषम् यत्सर्वभूतः सर्वात्मा परमात्मा सनातनः अदित्यामभवद्भास्वान् पूर्वमाराधितस्तया क्रौष्टकिरुवाच भगवन् श्रोतुमिच्छामि यत्स्वरूपं विवस्वतः यत्कारणं चाधिदेवः सोऽभवत्कश्यपात्मजः यथा चाराधितो देव्या सोदित्या कश्यपेन च आराधितेन चोक्तं यत् देवेन भास्वदा प्रभावं चावतीर्णस्य यथावन्मुनिसत्तम भवदा कथितं सम्यक् श्रोतुमिच्छाम्यशेषतः मार्कण्डेय उवाच विस्पष्टा परमाविद्या ज्योतिर्भा शाश्वतीस्फुटा कैवल्यं ज्ञानमाविर्भू प्राकाम्यं संविदेव बोधस्वगतिमतिर्जा तस्पत श्रूयतांच महाभाग विस्तरा वद मम यो यदाद निष्प्रभेस्मिन्निरालोके सर्वतस्तमसावृते बृहदण्डमभूदेकमक्षरं कारणं परं तद्बिभेद तदन्धस्थो भगवान् प्रपिदामहः पद्मयोनिस्वयं ब्रह्मा यः जगदां प्रभुः तन्मुखादोमिति महानभूच्छब्दो महामुने ततो भूस्तु भुवस्तस्मात्ततश्चरनन्तरम् ता येदाव्याहृतयस्तिस्रस्वरूपं तद्विवस्वतः ओमित्यस्मात्स्वरूपात्तु सूक्ष्मरूपं रवेः परम् तदो महरिदि स्थूलं जनं स्थूलतरं ततः ततस्तपस्ततः सत्यमिति मूर्तानि सप्तधा स्थितानि तस्य रूपाणि भवन्ति न भवन्ति च स्वभावयोर्भावं यदो गच्छन्ति संशयं आद्यन्तं यत्परं सूक्ष्ममरूपं परमं स्थितम् ओमित्युक्तं मया विप्रतत्परब्रह्मतद्वपुः यदि श्रीमार्कण्डेयपुराणेवं शानुकीर्तनं नामाष्टनवतितमोऽध्यायः ॐ